त्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवते महापुराणे सप्तमस्कन्धे अष्टमोऽध्यायः संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे ब्रह्मलोकम् गतो राजा रेवते संयुतः स्वयम् मया पूर्वं श्रुतं कृष्णम् ब्राह्मणेभ्य कथांदरे ब्राह्मणो ब्रह्म ब्रामन वृक्षान्तो ब्रह्मलोकमवाप्नुयात् राजा कथं गतः तत्र रेव संयुतः स्वयं सत्यलोके दुष्प्रापे भूर्लोकादिति संशय हे मृतः ृतः स्वर्गम् अवाप्नोति सर्वशास्त्रेषु निर्णयः मानुषेण तु देहेन ब्रह्मलोके गति कथं स्वर्गात् लोके मानुषे दायते गतिः एतन्मे संशयं विद्वन् चेत्तुमर्हसि साम्प्रतं यथा जापतिम् मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः इन्द्रलोको वह्निलोको या च संयमिनी पुरी तथैव सत्यलोकश्च कैलासश्च तथा पुनः वैकुण्ठश्च पुनः तत्र वैष्णवम् पदमुच्यते यहाँ शक्रलोके ग पाथोधनुर्धर पंचवर्षा कौंते युषेण देहन वास्व तथा भोपाल ककुत्थ प्रमुख किल सलोक ग दैत्या चापि महाबलः जितेन्द्र सदनं प्राप्य संस्थितः तत्र कामतः महाविषः पुराजा ब्रह्मलोकं गतस्वरात् आगच्छन्तीं नृ गङ्गाम् अपश्य चातिसुन्दरीं वायोनां ब्रह्मस्यास्तु दैवाधपरतनृप किञ्चिन्नग्नान्फणाथ दृष्टा सा सुन्दरी तथा स्मितम् चकार कामातः सा च किञ्चिज्जहात वै ब्रह्मणा तौ तदा दृष्टौ शप्तो जातो वसुन्दरान् वैकुण्ठे पितुः पी सर्वे पीडिता दैत्यदान वै गत्वा हरिम् जगन्नाथम् अस्तु कमलापतिम् सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तमः गम्यः सर्वेऽपि लोकास्यु मानवानां न राधिपे अवश्यं कृतपुण्यानां तापसानां न राधिपे पुण्यसद्भाव एवात्र गमने कारणं नृप तथैव यज्ञेन भावितात्मनाम। रेवतो रेवम् कन्याम् गृहीत्वा चारुलोचनाम् ब्रह्मलोकम् गतः पश्चात् किं कुतम् तेन भूभूजाय ब्रह्मणा किं समादिष्टम् कस्मै दत्ता सुता पुनः तत्सर्वम् वित्तरा ब्रह्मन् कथय त्वम् न माधुना निशामाय महे पार राजा रेवतकिल पुत्र्यावरम् परिप्रष्टुम् ब्रह्मलोकम् गतो यदा आवर्तमाने गान्धर्वे स्थितो लब्धक्षणक्षणम् अण्वन्नतृप्य धृष्टात्मा सभायान्तु सकन्यकः समाप्ते तत्र गांधर्वे, प्रणम्य परमेश्वरम् दर्शयित्वा सुताम् तस्मै स्वाभिप्रायं न्यवेदेत परं कथय देवेश कन्यै मम पुत्रिका देया कस्मै मया ब्रह्मन् प्रष्टुम् त्वांसमुपागतः बहवो राजपुत्रा मे वीक्षितः कुलसम्भवः कस्मिंश्चिन्मे मनः कामं नोपतिष्ठति जञ्जलम् तस्मात्ताम् देवदेवेश प्रष्टुम् अत्रागतोऽस्म्यहम् तदा ज्ञापय सर्वज्ञ योग्यम् राजसुदम्बरम् कुलीनम् बलवन्तम् च सर्वलक्षणसंयुतम् दातारम् धर्मशीलम् च राजपुत्रम् समाधिशे तदा कर्ण्य जगत्कर्ता वचनम् नृपदे मुवाच हसन् वाक्यम् दृष्ट्वा कालस्य पर्ययम् राजपुत्रा त्वया वराये हृदये कृतः व्यस्तः कालेन ते सर्वे सपित्रो गोत्रबान्धवः सप्तविंशति भवद्येव द्वापरस्तु प्रवर्तते वंशजास्त्रे मुता सर्वे पुरी दैत्यलुठिता सोम वंशोद्भव प्रशस्ती उग्रसेन ख्या मथुराधिपतिल यंश संभूत राजा मथुर मंडले उग्रसेनात्मज कंस सुरद्वेशी महाबल दैत्यांश पितर सोपी कारागारं निवेशत स्वयं राजं चकारासो नृपाणां मदगर्वितः मेदिने चातिभारसा ब्रह्माण्डं शरणं गता दुष्टराजन्यसैन्यानां भारे नातिसमाकुलाय अंशावयतरणं तत्र गदितं सुरसत्तमहि वासुदेवः समुत्पन्नः कृष्ण कमललोचनः देवक्यां देवरूपिण्यां यो सो नारायणो मुनिः तपश्चचार्य दुःसाध्यम् धर्मपुत्रः सनासनः गङ्गातीरे नरसखः पुण्ये भैदरिकाश्रमे स्ववतीर्णो यदकुले वासुदेवोऽपि विश्रुतः सेना निह पाप कंस कृष्ण सत्तम उग्रसेना दृष्ट्र खलम श्रुतम कंस पापो जरासंधो महाबल आगत मथुरा क्रोधात चकार संग जरासो महाबलह, प्रेषयामास युद्धाय सबलम् यवनम् ततः श्रुत्वा यन्तम् महाशोरम् स्वसैन्यम् यवनाधिपम् कृष्णत्वमथुराम् त्यक्त्वा पुरीम् द्वारावतीमगात् प्रभग्नाम् ताम् पुरीम् कृष्णः शिल्पिभिस्सह सङ्गतैः कालयामास दुर्गाढ्यम् हट्टशालाविमण्डिराम् जीर्णोद्धारम् पुरकृत्वा वासुदेवः प्रतापवान् उग्रसेनं च राजानम् चकारवान् स्थापयामास द्वारवत्याम् यदुत्तमः वासुदेवस्तु तत्राद्य वर्तते बान्धवैः ज सब बलदेव फलायु शो मुसल वीर वर तो तव संषणा देहाशु कन्या कमलोचना रेवतील बलभद्राय विवाह विधि द्वार पुत्री नृपेथ गच्छम् बदरिकाश्रमं तपस्तप्तुम् सुरारामं पावनं कामदं नृणाम् उवाच इति राजा समादिष्टो ब्रह्मण पद्मयोनिना जगाम तरसा राजन् द्वारकाम् कन्ययान्वितः धरोताम् बलदेवाय कन्यां वै शुभलक्षणाम् ततः तपः तीव्रं नृपतिः कालपर्यये जगामैत्रीशावासं त्यक्त्वा देहं सरितटे राजोवाच भगवन्दाश्चर्यं भवता समुदाहृतं रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः युवानाम् तु गतं तत्र शतं भ्रष्टोत्तरं किरे कन्यावृद्धा न राजा वातितरं नु किम् एतावन्तं तथा कालम् आयुः कथं वासुवाच न जराक्षुत्पिपासा वा न मृत्यो न ब्रह्म लोके सदान मेरुम गै सत राय गटाकुशस्थल त्यक्त भयभीता मन से पुत्र उत्पन्नो वीरवत्तर है इक्काको विख्या सूर्य वंशक पुंसार्थम् तपातिष्ठत् देवीम् ध्यात्वा निरन्तरम् नारदस्य उपदेशेन प्राप्य दीक्षामनुत्तमाम् तस्य पुत्र शतम् राजन् इक्ष्वा को इति विश्रुतम् विकुक्षिः पसमस्तेषाम् बलवीर्य समन्वितः अयोध्यायाम् स्थितो राजा कोविति है, शकुनी प्रमुखः पुत्र पञ्चाशत् बलवत्तरः उत्तरापथ देशस्य रक्षितार कृताखले दक्षिणस्यां तथा राजन् आदिष्टास्तेन ते सुतः चत्वारिंशत् तथाष्टौच रक्षणार्थं महात्मना अन्यो द्वौ संस्थितौ पार्श्वे सेवा तम् तस्य भूपते इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्रां संहितायाम् सप्तमस्कन्धे इक्षाकुवंशवर्णनम् नाम अष्टमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु